अण्डम् तत् खलु पूर्वसृष्ट्य सलिलेतिश्च सहस्रम् समाग निर्विन्दन्न कृताश्चतुं दश जगद्रूपम् विराड वयम् साहस्र हि करपादमूर्ध निवसे निःशेष जीवात्मको निर्भातोऽसि मरुत्पुराधिप सर्वमयः